नमो नमः नमस्कारः सर्वेषां स्वागतम् नमो नमः भगिनी अहं म्यूट् मध्ये तिष्ठामि किञ्चित् क्लेशं भविष्यति मम समीपे अस्तु अस्तु वीणा भगिनी वक्तुं न शक्नोति वा हा हा हा भगिनि अस्तु अस्तु धन्यवादः भगिनी अस्तु चिन्ता अस्तु राधा भगिनी आरम्भं करोति वा प्रार्थनया नमस्ते भगिनि सरस्वती ah. नमुनुन। नमस्तुभ्यम् वरदेकामरूपिणि विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् अस्तु नमो नमः पुनः एकवारं स्वागतम् वयम् आरम्भं कुर्मः अद्यदिने कथायाः चयनं कथा किञ्चित् दीर्घाकथा इति अस्ति अस्माकं आ, तत्र वयं सर्वे जानीमः तत् हेर् एण्ड् टाटाय्स् इति कथा सर्वेषां मनसि अस्ति खलु बाल्यकाले एव वयं पठितवन्तः स्मरन्ति खलु अस्तु भगिनी आम् आम, आम। एषा कथा तस्य कथा तस्याः कथायाः किञ्चित् विस्तृतीकरणं भवति अत्र एक्स्टेन्शन् आफ़् द सेम् स्टोरि विच् वी हा लर्ण्ट् अस्तु अधुना तद् वयं पुस्तकं प्रति गच्छामः अस्माकं पठनम् अधुना प्रचलति तत् इदानीं कदा इदानीं तत् कालवाचकं अस्तु अहं स्क्रीन् शेर् करोमि तत् पठनस्य एव साक्षात् आरम्भं कुर्मः कथायाः समयः अधिकः अद्यदिने अस्तु तत्र अस्माकं पृष्ठक्रमाङ्कः इदानीं कृते अस्ति पश्यामि अत्र कृष्णः कदा उत्तिष्ठति तद्वयं कृतवन्तः अधुना तत्र अत्र इदानीमिति मम स्क्रीन् दृश्यते भगिनि दृश्यते दृश्यते आं प्रथलम् आरम्भं कुर्मः हा भारतमहोदय नमो नमः भवान् आरम्भं करोति नमो नमः भगिनी आम् आं आम। पठतु कृपया चेहि पठत पूर्वम् अहं बालः आसम् इदानीं युवकः अस्मि इदानीं कः समयः इदानीम् एकवादनम् अस्ति सैनिकाः प्रभाते शिबिरे आसन इदानीं युद्धक्षेत्रे सन्ति सुरेशः पूर्वं केरले आसीत् इदानीं काश्मीरे अस्ति सरला प्रातःकाले प्रातः प्रातः कार्यालयं गतवती इदानीं नाट्यगृहं गच्छति पूर्व पूर्वं स्ति <ढ़े> न पुरं सूत्राष्टः पालितवान् इदानीं युधिष्ठिरः पालयति पश्चात् परीक्षि पाल पालिष्यति पालयिष्यति इति पालयिष्यति पालयिष्यति इति हा यथा गमिष्यति इति वदामः गमिष्यति वदिष्यति तत्र इ आगच्छति खलु मध्ये तत् आगमः इ एतस्य आगमः इति अस्ति हा अधुना पर्याप्तं धन्यवादः महोदय हा अत्र विषयः कः पश्यन्तु प्रथमं वाक्यं पश्यन्तु सर्वे पूर्वम् अहं बालः आसम् भूत्कालम् भूतकाल बोधनम हाँ भूतकाल भूतकाल से बोधनम करती पूर्व अहम बाल आसम इदानम युवक अस्म इं तलसूचक इदीम ना युवक अस्म कमय नाउ वट इज द टाइम इदानम अस्मकं कदने अवत इंमवादनम प्रेजेंट तत्म समय प्रेजेट प्रभाते शिवि आसन आ, अत्र असधा अस्ट असधा त्र तसन लंगलकार भूतका प्रथमपुरुष बहुवचनान्तरूपं सैनिकाः तत्र अस्ति सैनिकाः इत्युक्ते सैनिकाः बहुवचनान्तपदं प्रभाते प्रातःकाले सर्वे सैनिकाः कुत्र शिबिरे आसन् इदानीं युद्धक्षेत्रे सन्ति प्रभाते ते सर्वे शिबिरे इदानीम् एस्प्रिजिन् मोमेण्ट् युद्धक्षेत्रे सन्ति अतः तत्र इदानीम यदा, यदा इन शब्द प्रयोग तुश्य है तत्र, तत्र लट्ल वर्तमान काल इदान युवक अस् अस्मी असधा लट्लकार उत्तम पुष एक इदानम एक अस्तीय वाक्य असधा लट्ल प्रथमपुरुष एकवचन इदानीम् युद्धक्षेत्रे सन्ति अस्धातोः लट्लकार प्रथमपुरुष बहुवचन अस्तु सुरेशः पूर्वम् केरले आसीत् भूत्काल् दर्शयति आसीत् सुरेशः प्रथमपुरुष एकवचन अतः तत्र आसीत् इदानीम् इदानीं स्थिति का अस्ति काश्मिरे इत्युक्ते लट्लकार लट्लकार प्रथमपुरुष एकवचन अस्ति स्तः सन्ति अस्ति एकवचन पूर्वे केरले भूतकाले केरले आसीत् बट् नौ इदानीम् काश्मिरे सरला प्रातः कार्यालयम् गतवती अधुना गतवती इति किम् अस्ति वयं दृष्टवन्तः गतवती इत्युक्तौ तव प्रत्ययान्तरूपम् तत् कर्त्रार्थकस्ति कर्तृपदं सूचयति भूतकाले दर्श भूतकालं दर्शयति तत् प्रातः कार्यालयं गतवती सरला नाम्ना महिला तत् प्रातः सः कार्यालयं गतवती आसीत् गतवती इदानीं नाट्यगृहं गच्छति नौ एट् प्रेसेण्ट् मोमेण्ट् लट्लकार् गच्छति कुत्र इदानीं नाट्यगृहम् ह अधुना पश्यन्तु अन्तिम अन्तिमं वाक्यं पूर्वम् हस्तिनापुरं धृतराष्ट्रः पालितवान् पालितवान् पुनः एकवारं तत्र तव प्रत्यय तवतु प्रत्ययः अस्ति यथा पालनं कृतवान् धृतराष्ट्रः पूर्वे हस्तिनापुरस्य राजा अभवत् इदानीं युधिष्ठिरः पालयति अधुना इदानीम् इत्युक्ते तत्र कालः कालः दर्शयति तत्र महाभारतयुद्धानन्तरं हा महाभारतयुद्धानन्तरं सर्वेषां कौरवाणां तत्र विनाशः जातः अधुना तत्र युधिष्ठिर इति सम्राटः इदानीं युधिष्ठिरः पालयति पश्चात् युधिष्ठिरः यदा दिवङ्गतः भविष्यति तदा तदनन्तरं किं भवति पश्चात् भविष्यत्काले परीक्षित् परीक्षित् इति कः परीक्षित् कोऽपि जानाति वा कस्य पुत्रः परीक्षित्मन्यु पुत्र सत्यम् अर्जुन अर्जुन सुभद्रा अभिमन्यु सुभद्रा उत्तरा क्षम्यताम् अभिमन्यु उत्तरा परीक्षित् परीक्षित् इति सः जन्म प्राप्तवान् खलु तत्र कृष्ण भगवान् कृष्ण आशीर्वादं तत्र शस्त्रप्रयोगेण तत्र अश्वत्थामा तस्य वधं कारितवान् तत्र अस्त्रप्रयोगेण अनन्तरं परीक्षित पुनः जन्म प्राप्तवान् तत्र पालयिष्यति गमिष्यति वदिष्यति किं सूचयति भविष्यत्काल सूचयति अधुना इदानीं न युधिष्ठिरः राजा अनन्तरं युधिष्ठिरस्य पश्चात् युधिष्ठिरस्य अनन्तरं परीक्षित पालयिष्यति हा इत्युक्ते अत्र इदानीं पदस्य कः अर्थः इदानीं पदं किं सूचयति तत् वाक्यम् अत्र अस्ति अधुना इदानीम् इति शब्दप्रयोगेण कोष्ठकस्य साहाय्येन अष्टवाक्यानि रचयत इति प्रश्न अस्ति कुर्मः रमाभगिनी भवती पठति वा कोष्टकस्य साहाय्येन तत्र कोष्टकस्य सहायेन अष्ट अष्टवाक्यानि रचयत कृष्णः कृष्णः कुन्ति कथमस्ति कृष्ण इदानीम् अधुना एतस्मिन् काले एतस्मिन् समये किं करोति कुन्ती किं करोति तत पश्यामः कथं भवितुम् अर्हति तत्र अहमस्ति वयमस्ति त्वमस्ति यूयमस्ति वयं सर्वे जानीमः अहमस्ति चेत् किं भवति अधुना इदानीम् इदानीम् इत्युक्ते तत्र लट्लकारेव भविष्यति लट्लकारस्य एव रूपम् आगच्छति लट्लकार एव भवेत् खलु तदा कृष्णः भवति चेत् किं वदामः तत्र कृष्णः तं स्मरसि इति भवितुमर्हति वा न खलु स्मरसि कदा आगच्छति मध्यमपुरुष एकवचनान्तरूपं स्मरसि किं भवितुमर्हति तत्र कृष्णः इति इदानीं कृष्णः कोऽपि प्रथमपुरुषे एकप्रश्नान्तरूपा पूजां करोति अपि भवितुमर्हति इतोपि इतोपि पञ्चजन्यं धमति पाञ्चजन्यं धमति आम् पाञ्चजन्यमिति शङ्ख नाम खलु पाञ्चजन्यं ऋषिकेशो हा पाञ्चजन्य इति शङ्खनां धमते इत्युक्ते ब्लोयिङ्ग् इति तत् प्रथमे अध्याये अस्ति खलु तत् सर्वे सर्वेषां वर्णनं तत्र अस्ति सर्वे सर्वे सज्जाः सन्ति अनन्तरं शङ्खानां धमनं भीष्माचार्यः तत्र आरब्धवान् शङ्खदमनं तत् पाञ्च पाञ्चजन्यं ऋषिकेशौ ऋषिकेशौ इत्युक्ते कृष्ण कृष्णः इदानीं पाञ्चजन्यं दमति अधुना कुन्ती पुन्ती इति पदस्य कृते किं सम्भवति इदानीं इदानीं चितानि कुन्ती चितानीं भवतः सहायकाः न पश्यन्तु कुन्ती अस्ति खलु प्रथमपुरुषे एकवचनान्तं पदं भवेत् लट्लकारे किं भवितुमर्हति सज्जा अस्ति सज्जा कुन्ती पूजां करोति इति अस्ति पश्यन्तु कृष्णः पाञ्चजन्यं नमति इत्युक्ते युद्धस्य कृते सर्वे सज्जाः सर्वे सैनिकाः योद्धाराः सन् सज्जा तदा कुन्ती किं कर्तुं किं कर्तुम् अर्हति विजयस्य पुत्राणां विजयस्य कृते पूजां करोति इति अस्तु अधुना अग्रे पश्यतु सेनायोद्धारः किं भवितुं सेना इदानीं जयं वदत हा तत् वदत कथमागच्छति वदत हृदेभर्तुपद किं सेना तत् अधुनापि प्रथमपुरुषे एकवचनान्तम् एव भिन्ना इति बहुवचनं न प्रथमपुरुषे एकवचनं सेना इदानीं सज्जा अस्ति सम्यक् सम्यक् सेना सज्जा अस्ति सेना सज्जा अस्ति सेना सज्जा रेडि टु फैट् योद्धारः योद्धारः इदानीम् इदानीं धीरा भवन्तु बहु बहुवचनम् आम् धीराः भवन्तु सत्यं बहु सम्यक् इत्युक्ते धीराः धीरा इत्युक्ते धैर्येण सह युद्धं कुर्वन्तु धीराः भवन्तु सम्यक् उत्तमम् अधुना अहम् अहम् इदानीं निद्रामग्नः नास्मि अहम् इदानीं निद्रामग्नः न अस्मि अस्मि अहं कृते उत्तमपुरुष एकवचनं लट्लकार वर्तमानकाल् अस्तु उत्तमम् इदानीं भवतः सहायकाः सत्यं उत्तमं वयं स्मः इदानीं सहायकाः स्मः उत्तमम् अग्रिमे वदत् आं वदत् इति भवति वा न वदत् कदा आगच्छति पशन्तु भवति धीराह न त्वं वदत पश्यतु टेबल् तत् तालिका त्वं किम् आगच्छति वद वद रूपस्य कृते त्वम् एव त्वं तं स्मरसि स्मरसि आं मध्यमपुरुष एकवचने हा अस्तु तं स्मरसि आम् अधुना यूयं कृते किं भवति यूयम् सन्ति यूयम् इदानीं भिन्नाः सन्ति तत् सन्ति न आगच्छति खलु त्वं युवां यूयं मध्यमपुरुष वदसि वदसि वद यूयं जयं वदत इति आगच्छति युयं जयं वदत अस्तु धन्यवादः अस्तु अस्तु तत्र खिन्नाः सन्ति कृते किमपि नास्ति तत्र एवं खलु खिन्नाः सन्ति कृते किमपि नास्ति अधिकं तद् तस्य योजना अस्तु उत्तमम् अधुना अग्रिमे गच्छामः तत् राधाभगिनी भवती पठति वा अग्रिमे आम् भगिनि यतो उदाहरणं वाक्यानि रचयत उदाहरणं पूर्वं दुर्योधनः हस्तिनापुरं कुरुक्षेत्रं hmm. पूर्वं दुर्योधनः हस्तिनापुरे आसीत् इदानीं कुरुक्षेत्रे अस्ति hmm. तत्र कथं कथं यथोदाहरणं तत्र उदाहरणम् अस्ति पूर्वं दुर्योधन इति एकः शब्दः हस्तिनापुरम् एकः शब्दः कुरुक्षेत्रं तत्पूर्वं दुर्योधनहस्तिनापुरे आसीत् भूतकाले इदानीं कुरुक्षेत्रे अस्ति युद्धस्य कृते सह सज्जः हा इति अस्ति अधुना तथैव इति कर्तृपदम् उपयुज्य वाक्यं हा वदतु भगिनी अभिमन्युः लः युवकः hmm. पूर्वे अभिमन्युः बालः बालः आसीत् hmm. इदानीं युवकः अस्ति योग्य ah. ah. okay. युद्धारम्भे अर्जुनः खिन्नः hmm. सन्तुष्टः hmm. युद्धार पूर्वः पूर्वं युद्धारम्भे अर्जुनः hmm. खिन्न आसी इदान सतुष्ट अस् युद्धारंभे सह खि आसी कि खिन्न ते बाधवाश्य बांधवा पश्य तत्ण खिन्न जाता बहु सी गुरु त्र दोणाचार्य गुरु पिता ते मतुला हा सी हाँ mm. त्र सर्व तर्शनम अभवत तेन मनसी विषादिन्न त्र खिन्न दुखी परंतु दुख विषाद दुःखम् विषाद अर्जुनविषादयोगः इति अस्ति खलु प्रथमः प्रथमम् अध्यायस्य नाम नाम तत्र अर्जुनविषादयोगः तत् खिन्नता अधुना सन्तुष्टः अधुना इदानीं सन्तुष्टः अस्ति इदानीम् गीतामृत लब्ध्वा सः सन्तुष्टः गीता इत्युक्ते जीवनस्य सारः सः प्राप्तवान् साक्षात् भगवतः मुखात् सः प्राप्तवान् अतः सः सन्तुष्टः सर्वेषां शङ्का वा सन्देहानां तत्र दूरीकरणम् अभवत् इदानीं सः सन्तुष्टः इति अग्रिमे अग्रिमे ऋषिकेशः उत्तरप्रदेशः उत्तराखण्डः पूर्वं ऋषिकेशः उत्तरप्रदेशे आसीत् इदानीम् उत्तराखण्डे अस्ति आम् सम्यक् उत्तरप्रदेशस्य भागः ऋषिकेशः अधुना तत् उत्तराखण्ड इति विभाजनम् अभवत् उत्तरप्रदेशस्य उत्तराखण्डः तत्र स्वतन्त्ररूपेण तत्र राज्यमस्ति अतः ऋषिकेशः अधुना इदानीम् उत्तराखण्डे अस्ति योग्यम् अग्रिमे इतः पूर्वंगम् इतः hmm. ah, पूर्वं द्वापरयुगं आसीत् इदानीं कलियुगम् अस्ति सत्यम् इदानीं कलियुगम् अग्रिमे भीष्मः पूर्वं युद्धक्षेत्रं चरसय्या भीष्मः पूर्वं युद्धक्षेत्रे आसीत् hmm. इदानीम् इदानीं शरशय्याम् अस्ति बहु सम्यक् भगिनी हा पूर्वं युद्धक्षेत्रे सेनापति सेनापतिरूपेण कार्यं कृतवान् आसीत् अधुना शरशय्यायां किमर्थं तत्र शरशय्यायां शयनम् अभवत् भीष्माचार्यस्य अर्जुन uh, uh, तस्य बाणान् uh, बाणा अर्जुनस्य बाण बाणकारणे अस्तु परन्तु तत् प्राणत्यागं न अभवत् किमर्थं तस्य आशीर्वादम् अस्ति तस्य इच्छा बहु सम्यक् पश्यन्तु भगिनी अधुना भवती सम्यक् प्रकारेण वक्तुं शक्नोति हा सम्यक् प्रकारे भवती वदति उत्तमम् उत्तमम् अधुना प्रतीक्षा प्रतीक्षा अस्ति भीष्माचार्यस्य कृते प्रतीक्षा कस्य प्रतीक्षा उत्तरायणस्य प्रतिक्षा तत्काल उत्तरायणे सः इच्छति स्म उत्तरायणे एव मल, मम प्राणत्यागं भवेत् तदा एव तावत्पर्यन्तमहं प्रतीक्षां करोमि कालप्रतीक्षा तत् अतः सः शरशय्याम् आसीत् इति अधुना इदानीं शरशय्याम् अस्ति शरशय्यायाम् अस्ति इति हा अग्रिमे पाण्डवाः वनम् इन्द्रप्रस्थः पूर्वं पाण्डवाः वने आसीत् इदानीम् इन्द्रप्रस्थे अस्ति इन्द्रप्रस्थ इति पाण्डवा पाण्डव पाण्डवानां राज्यनामं तत्र राज्यमस्ति तेषाम् इन्द्रप्रस्थः अतीव सुन्दरतया ते सर्वे रचितवन्तः तत्र निर्मितिम् अभवत् तस्य इन्द्रप्रस्थः योगे mm. अग्रिमे कर्णः सामान्यः अङ्गराजः पूर्वं hmm. कर्णः सामान्य आसीत् hmm. इदानीं अङ्गराजः अस्ति इदानीम् अङ्गराजः अङ्गराजः केन कृतः दुर्योधनकृतः आम् दुर्योधनेन तत्र किमर्थं तत् अङ्गराज अङ्गदेशस्य स्वामिपदं राजपदं सः दत्तवान् आसीत् कर्णस्य कृते अङ्गराज इति योग्यम् अग्रिमे युरुत्सुः कौरवपक्षीयः पाण्डवपक्षीयः युयुत्सुः कौरवपक्षीयः आसीत् इदानीं पाण्डवपक्षीयः अस्ति हा तत् पक्षपरिवर्तनं सः कृतवान् युयुत्सु नाम्ना प्रथमतः कौरवपक्षीयः अनन्तरं पाण्डवपक्षी उत्तममस्ति भगिनी योग्यं धन्यवादः अधुना अग्रिमं इदानीम् इति अव्ययस्य प्रयोगं कृत्वा वाक्यानि रचयत तत्तु सर्वेषां कृते अस्ति सर्वे, सर्वे वदन्ति एकमेकम् हा इदानीम् इति वाक्यप्रयोगम् आसीत् अस्ति वा आसम् अस्मि सर्वे एकमेकं एकम वदन्तु अनन्तरं अन, वयं कथां प्रति गच्छामः एकमेकं एकम भारतमहोदय गीताञ्जलिभगिनी जयन्ती भगिनी अधुना वक्तुं शक्नोति वा किञ्चित् कालं पर्यन्तं अधुना वक्तुं शक्नोति खलु हा अस्तु आवे। आवे। एकम एकम वाक्यं वदतु अनन्तरं कथापठनम् इतः पूर्वम् अहं चन्नैनगरे आसीत् इदानीम् अहं कोयमुत्तूर् नगरे, नगरे वसामि हा पर परन्तु आसीत् अहमस्ति खलु तत् आसम् इति भवति खलु सारिवे सारिवे अस्तु अस्तु एकवारं पुनः एकवारं वदतु इद इतः पूर्वम् अहं चन्नैनगरे आसम् इदानीम् अहं कोयमत्तूर्नगरे वसामि योग्यं योग्यं धन्यवादः योग्यं राधा भगिनी भारत् महोदय एकमेकं एकम वदतु भारतदेशे वसामि इदानीम् अमेरिकादेशे अमेरिकादेशे वस् वस वस् वसति वसामि हा त पूर्वे पूर्वं भारतदेशे अवसत् हा अवसत् भूतकाले अवसम् अवसम् इति भवति किमपि okay. mm -hmm. वक्तुं शक्नोति महोदय पूर्वम् अहं भारतदेशे वसामि स्म इति भूतकाल अधुना mm -hmm. देशे वसामि इति mm -hmm. सम्भाषणदृष्ट्या तत् स्म इति उपयुज्य भूतकालदर्शयत् भूतकालस्य बोधनं भवति तत् वयम् उपयुज्यामः तत् तदपि योग्यम् mm -hmm. अस्तु सम्यक् अस्ति अग्रिमे राता भगिनी रमा भगिनी श्यामला भगिनी एकमेकं एकम वदतु सर्वे भगिनी आं पूर्वं मम पुत्र पुत्रः पुत्रः करेक्ट् पुत्र पुत्रः पुत्रः आपल् कम्पनीं आ, कार्यं कृतवान् इदानीं सा कम्पनीं करोति कार्यं करोति कार्यं कार्यं करोति उत्तमं योग्यं योग्यमस्ति भगिनी योग्यं योग्यं रमाभगिनी श्यामला भगिनी राजाभगिनी रहम् इतः पूर्वम् बालिका अस्मि आस, आस, आसम् इदानीम् आसम् इदानीं महिला अस्मि महिला अस्मि योग्यं राधा श्यामला राधा भगिनी श्यामला भगिनी हा पूर्वम् अहं विद्या महाविद्यालये गच्छति इदानीम् अहं विद्यालये गच्छामि पूर्वम् अहं विद्यालये विद्यालयं गतवती इदानीं इदानी महाविद्यालयं गच्छामि इदानीम् अहं महाविद्यालयं गच्छामि योग्यं राधा भगिनी पूर्वं बालकः गृहमासीत् इदानीं बालकः पाठशालाम् अस्ति पाठशालाम् अस्ति गच्छति गच्छति गच्छति गच्छति गृहे आसम् इदानीं पाठशालां गच्छति वा गृहम् आसीत् इदानीं पाठशालां गच्छति योग्यं योग्यम् अस्तु सर्वेषां सम्यक् अवगमनम् अधुना वयं कथां प्रति गच्छामः अस्तु कथा एषा कथा दृश्यते स्क्रीन् दृश्यते दृश्यते कच्छपश्चः कथा हेर् एंड द टाटैस् तत्र पूर्वभागे या कथा वयं या कथां वयं पठितवन्तः सा एव तत्र अस्ति अनन्तरं तस्य परिवर्तनं तत्र अस्तु एकमेकं पठामः शमला भगिनी भवती आरम्भं करोति वा अस्तु भगिनि अहम् आरम्भं करोमि अस्ति कक्षितशकः कश्चबः तस्य मित्रं कश्चभः एकस्मिन् तडागे निवसति शश श, श शशकः तडागतः किञ् किञ्चित् जरे एकस्मिन् उपवने निवसति mm. उपवनं तडागतः क्रोशत्रय क्रोशद्वयमिते mm. दूरे अस्ति mm. प्रतिदिनं शशकः कच्छ कच, कच्छपसमीपम् आगच्छति mm. तेन सः आल् आल्पति खेल् खेल् hmm. खादति नानाविद्यक्रीडाद्वारा hmm. कच्छपस्य मनोरञ्जनं करोति च hmm. कच्छपः अपि शशकं स्वस्य मित्ररूपेण प्राप्य बहु आनन्दितः hmm. hmm. एकः शशकः अस्ति कच्छपः कच्छपः एव तस्य मित्रं कच्छवः इत्युक्ते कुर्मः टोटोय्टोय्स् कच्छं कच्छपः टाट् एकस्मिन् तडागे निवसति Once mm. upon a time, it was in the pond. Um, um. It was living shasha in the pond. Kaha, shasha kaha kutra nivasati? Shasha kaha... Uh, shasha kaha... Uh, shasha kaha upavane uh. nivasati. Kinshi dure, ekasmin upavane. उपवनम् इत्युक्ते तत्र उद्यानं तत्र सः निवसति हा mm. पश्यन्तु उप उपवन उद्यानम् शशकः अस्ति आम् उपवनं तडागतः कोशद्वयम् इति दूरे अस्ति क्रोशद्वयं तत्र मापनं तत्र अंतर, डिस्टेन्स् मेजरिङ्ग् यूनिट् इट् क्रोश शशकः कच्छ समीपम् आगच्छति डे वेण्ट् नियर् वेण्ट् नियर्टोय् आम् आलपति खेलति खादति नानाविधक्रीडाद्वारा कच्छपस्य मनोरञ्जनं करोति चेटिङ्ग् एण्ड् एन्जायिङ्ग् आल् everything. <laughs> पश्यन्तु तत्र कच्छपः तडागतः उपवनं गन्तुं न शक्नोति परन्तु चषकः तत्र उपवनम् उपवनतः तडागं प्रति आगच्छति अतः तत्र वर्णनमस्ति चषकः कच्छपेण सह आलपति खेलति खादति नानाविधक्रीडाद्वारा कच्छपस्य मनोरञ्जनं करोति च अन्तिमं <laughs> वाक्यमस्ति तत्र परिच्छेदे कच्छपः कच्छपः अपि स्वस्य मित्ररूपेण प्राप्य बहु आनन्दितः वेरि मच् आम् मित्ररूपेण प्राप्य बहु आनन्दितः अस्ति उत्तमम् उत्तमम् उत्तमविवरणं धन्यवाद भगिनी अग्रिमे पठति पीताञ्जलि भगिनी अग्रिमे पठति वा एकदा शशकः आरभ्य एकदा शशकः कचपम् अकथयत् मित्र चलधावनक्रीडां करिष्यावः तव hmm. दावनस्य धावनस्य शुभारम्भः भवतु hmm. आवां धावित्वा मम गृहसमीपं गच्छाव यः hmm. अग्रे गत्वा मम गृहं प्राप्नुयात् सः विजयति भविष्यति इति hmm. शशकः वदति कश्यपः hmm. वदति कच्छपं hmm. वदति Uh, hmm. आवा धावनक्रीडा करिष्यामः करिष्यावः hmm. तस्य गृह गृहतः धावनस्य प्रारम्भ कर्तुं धावित्वा hmm. uh, मम गृह uh, तवागवे मीन्स् नियर् फ्रम् दाण्ड् तडागतः तडागतः शरागतः प्रारम्भ कर्तुं शशकः गृहसमीपं गच्छावः इति तस्य वदति तव वदति रैट् भगिनिवाम् आवां धावित्वा आवाम् आवां धावित्वां वयम् आवां, आवां, आवां, आवां, आवां, आवां वी तु धावित्वा मम गृहसमीपं गच्छावः इत्युक्ते तडागतः उपवनं पर्यन्तम् इति धावनक्रीडा भगिनि अग्रिमे किं भवति अग्रे गत्वा मम शशकः बृहत् गृहात् सः प्रथमं ग गच्छति सः विजय विचय भविष्यति इति उक्तवान् देट् इस् द रेस् अन्तिम डेस्टिनेशन् तत्र अन्तिमः तत्र समयः पश्यन्तु तत्र गृ गु, तव गृहतः इत्युक्ते तडागतः उपवनं पर्यन्तम् अस्माकं क्रीडा, क्रीडा। यः अग्रे गच्छति प्रथमतः उपवनं प्राप्नोति सः विजयी अस्तु अग्रिमे अपि पठतु कच्छपः कच्छपः जानाति यत् शशकापेक्षया स्वस्य गतिः मन्थारा इति तथापि सः शशकस्य प्रष्टवान् अङ्गीकृतवान् धावनदिव निश्च निश्चितं समयः अपि निर्धारितः उभयोः अपि महती उत्कण्ठा उत्कण्ठा महान् उत्साहः महदु महुद्दीपनं च महद्दीपनं महत महत् उद्दीपनं महत् उद्दीपनम् इत्युक्ते एक्सैटेशन् इति अधुना किं कच्छः जानाति किं जानाति जानाति कि चषकः शीघ्रं धावति आं ah. स्वस्य गतिः मन्थन मन्थनम् इत्युक्ते डल् लेज़ि इति स्लो इति स्वस्य गतिः मन्थन अङ्गीकृतवान् शशिकस्य प्रास्तवान् अङ्गीकृतवान् हा सो द्वयो धावनदिनं निश्चितकृतवान् समय अपि निर्धारितः निर्धारितः उभयो दिस्वन भगिनी उभयो अपि महती उभयो अपि हा उभयो मत्लब् तत्र शशकः कच्छप द्वयोः अपि महती उत्कण्ठा क्युरियासिटि उत्कण्ठा महान् उत्साहः एन्थूसियास्टिक् महत् उद्दीपनम् एक्सैटेशन् अस्तु दे आर् गोयिङ्ग् टु हाव् डेट्रेस् पर्टिक्युलर्ली रन्निङ्ग् रेस् बोट् वेर् इक्वलि एक्सैटेड् कच्छपः जानाति तर्हि सह उत्कण्ठया एव कार्यं करोति उत्साहेन आगच्छति तत्र द्वयोः उद्दीपनमस्ति एक्सैटेशन् अस्ति मनसि इति ओके भगिनि धन्यवादः अस्तु अधुना स्पर्धायाः आरम्भं धावनक्रीडायाः आरम्भं निश्चितदिनं निर्धारितसमयम् अस्तु धन्यवादः भगिनी धन्यवादः अग्रिमे रमा भगिनी पठेत् पठति वा निश्चिते, निश्चिते दिने निश्चिते दिने निर्धारितसमये धावनं प्रारब्धम् दशकः अतिवेगेन दा दावि दावित्वा शीघ्रमेव बहुदूरं गत्वा अचिन्तयत् अहो अहं तु बहुदूरम् आगतः अस्मि महस् मम सुहृतं तु मन्थरगतिः मन्थरगतिः एतावतः दूरस्य अधिग्रमणे तस्य महान् विलम्ब विलम्बः भवेत् एव अहमपि दृता दृधावनवशात् धृधावनवशात् द्रुतधावनवशात् द्रुतधावनवशात् द्रुतधावनवशात् फलान् फलान्तः अस्मि क्लान्तः क्लान्तः अस्मि अतः अत्र वृक्ष वृक्षस्य अतः किञ्चित् विश्र विश्रम पुनः विश्राम्य इति अग्रिमे प एतावत्पर्यन्तं वदतु अनन्तरम् अग्रिममपि पठतु एतावत्पर्यन्तं किम् अभवत् निश्चिते दिने निर्धारितसमये धावनं प्रारब्धम् निश्चित दिननिश्चितीकरणं समयनिश्चितीकरणं हा तत् आरम्भं धावनं अनन्तरं जातं शक्य बहु दूरं शीघ्रमेव धावितवान् अतः बहु शीघ्रम् आत्पन्ना बहु दूरम् आगच्छामि बहु दूरं सः आगतः आगतः शीघ्रं शीघ्रम् आगतः अतः अहं किञ्चित् निद्रां करोमि हा मम सुहृत् तु मन्थरगतिः मम सुहृत् इत्युक्ते मै फ्रेण्ड् इति कच्छपः कच्छपस्य मन्थरगतिः कुर्म कुर्मगति इति वदामः खलु किमपि मन्द मन्द मन्दगत कार्यं करोति तदा वयं वदामः खलु एषः तु hmm. कुर्मगतिः मन्थरगतिः हा मम सुरत् तु hmm. मन्थरगतिः एतावतः दूरस्य hmm. अतिक्रमणे तस्य महान् विलम्बः भवेत् एव हा अहं तु शीघ्रं समय सः समयः हा वदतु वदतु विलम्बेन विलम्बेन अहमस्तु अहमपि दूत ओ दूतधावनवशात् दूतधावनवशात् इति द्रूत इत्युक्ते द्रूत इत्युक्ते शिघ्र जलद् धावन अहं शीघ्रतया धावितवान् आसीत् आसम् अतः अहं क्लान्तः किञ्चित् तत्र श्रान्तः तत्र अण्टैर्ड् इति क्लान्तः अस्मि अतः अत्र विश्राम ष्यामि लेट् मि टेक्टै इति अग्रिमं परिच्छेदमपि पठतु अनन्तरम् अन्यकोपि पठतु एवं चिन्तयित्वा एवं चिन्तयित्वा शशकः स्वाप् स्वापम् अकरोत् स्वापम् कच्छपः तु विना विश्रामम् निरन्तरं चित्वा शशकस्य प्राप्नोति तत्र शशकः तेन नेन न दृष्टः महत... आश्चर्यम् अभवत् तस्य अधुना किमभवत् लैक् दिस्वापम् अकरोत् स्वापम् इत्युक्ते शार्ट् न्याप् इति वक्तुं शक्नुमः निद्रां कृतवान् किञ्चित् कालपर्यन्तं mm. निद्रां कृतवान् इति अस्तु निद्रां कृतव कृत कृतवान् विना vishramam without taking am hmm. ah. Nir nirandaram continuously hmm. chalit and hmm. chalitva sharakasya gṛham prāpnoti rīccha the description prāpnoti ah but drashtah sharakah pena drashtah sharakah not del hmm. so mahat aascharyam अभवत् इत्युक्ते अत्र किम् अभवत् निरन्तरतया कूर्मगत्या शशकः शशकः तत्र निद्रां कृतवान् परन्तु कच्छपः न कृतवान् निरन्तरतया स उद्यानं प्रति तत्र उद्यानं प्राप्तवान् तत् निश्चितीकरणं यत् अभवत् भवनं प्रति वयं गच्छामः तत्र शशकः तु न गतवान् परन्तु कच्छपः तत्र गतवान् इति स्थितिः एतत् सर्वं वयं कुर्मः हा तत् किमर्थं तत्र, तत्र, तत्र अस्य एतावत्पर्यन्तं या कथा वयं सर्वे तत्र बोधः कः परिश्रमः निरन्तरपरिश्रमेण किमपि सिद्ध्यति इति हा अत्र धन्यवादः धन्यवादः अधुना भारतमहोदय अत्र मार्गमपि केन् यु गो बेक् अगैन् लास्ट् सेण्टेन्स्कृतम् कुत्र अत्र वा उपरि कुत्र अस्ति न श्चर्य कच्छपः तु कच्छपः तु विना विश्रमं निरन्तरं चलित्वा गृहं प्राप्नोत् वायुविनि तु ओ तत्र तु पश्यन्तु तत्र काव्ये अपि तु वा एवं वाच्य च इति भिन्नभिन्न अर्थेण प्रयुज्यते किन्तु इति तु इत्युक्ते कच्छपः तु इत्युक्ते सः अपि गतवान् परन्तु एषः तु पूर्वमेव तत्र गतवान् तु obviously, अत्र तु इण्डिकेटिङ्ग् obviously सः निरन्तरं चलित्वा तत्र गतवान् तत्र पादपूर्णार्थमिति अस्ति तत्तु वा एवं वा च वी वि सी इन् काव्यं तत्तु इति अव्ययरूपेण आगच्छति तु शब्दस्य कोऽपि विभक्तिप्रत्ययः वा एवं सर्वं नास्ति तत्र कजप तु प्राप्नोत् इति <laughs> <laughs> <laughs> मध्य मध्य मार्गमध्ये सुप्तः ततपः निन्द्रा निन्द्रातः mm -hmm. उत्थाय यदा दुतया धावित्वा mm -hmm. यावत् गृहं प्राप्नोत् तावता कच्छपः तत्र उपस्थितः आसीत् एक अधुना अत्र एकनिमिषम् एकनिमिषम् वाक्यरचना अत्र वाक्यरचना कीदृशी मार्गमध्ये सुप्तशकः निद्रातः उत्थाय निद्रातः इति निद्रातः उत्थाय यदा द्रुततया द्रुततया शीघ्रगत्या धावित्वा यावद् गृहं प्राप्नोत् तावता कच्छपः तत्र उपस्थितः आसीत् इत्युक्ते यावत् शशकः द्रुतगत्या धावितवान् उपवनं प्राप्नुवान् प्राप्नुवान् तावत् किम् अभवत् बिफोर् देट् कच्छपः तत्र उपस्थितः आसीत् टैम् पीरियड् तत्र शशकः क... द्रुतगत्या धावितवान् परन्तु कच्छपः स्वस्य कुर्मगत्या प्रथमम् एव तत्र उपस्थितः आसीत् यावत् तावता इति यावत् अपि अव्ययरूपेण तावता अपि अव्ययरूपेण यदा तदा यावत् तावत् mm -hmm. नो चेत् तावता अपि यदा तदा यदि तर्हि तावता रूपेण यथा तथा एवं सर्वं तं दृष्ट्वा शशः लज्जितः दृष्ट्वा अधुना तत्र uh, रक्तवर्ण तत्र uh, अस्मात् ज्ञायते तद् बोधवाक्यमस्ति अस्माकं कृते हा पठतु अस्मात् अद्य निरन्तर्यम् निरन्तर्यं नैरन्तर्यम् ऐरन्तर्यं निरन्तर्यम् अस्ति चेत् सफला अवश्यं लभते इति अस्तु एतावत्पर्यन्तं बोधवाक्यं किम् अध्यवसाये अध्यवसाये इत्युक्ते सङ्कल्प वा अस्माकं परिश्रमे वा तत्र दृढनिश्चयः यदा भवेत् नैरन्तर्यम् निरन्तरता कन्सिस्टन्सि इति तत्र यदि वयं किमपि सङ्कल्पम् कुर्मः अवम् एवम् अस्तु तत षण्मासात् <laughs> प्राक् अहम् उत्कृष्टप्रकारेण सम्भाषणम् कर्तुम् इच्छामि तत् अस्माकम् निश्चय तदा तत्र यदा नैरन्तर्यम् निरन्तरतया वयम् प्रयासं कुर्मः चेत् सफलता अवश्यम् लभ्यते वयं सफल सफलतां प्राप्नुमः अवश्यं लभ्यते इति अग्रिमे पठतु इमां कथां तु सर्वे जानन्ति कि, किन्तु किं बा, भवन्तः जानन्ति ततः परं किं जात्मिति एषा कथा तु सर्वेषां मनसि अस्ति एव तद्वयं बाल्यकाले एव शालायां पठितवन्तः सर्वे इमां कथां तु सर्वे जानन्ति परन्तु किं भवन्तः जानन्ति ततः परं किं जातम् इति आफ्टर् देट् देट् इस् नोट् एन् एण्ड् इति कथा वदति पश्यामः ततः परं किं जातं किम् अभवत् ततः परं किम् अभवत् इति अस्तु mm -hmm. पठतु अस्याः घटनायाः बहु कालात् परं कदाचित् शशकः कच्छयत् अकथयत् प्रातः अकथयत, कच्छपः पुनः एकवारं धावनक्रीडां करवाव अस्मिन् अवसरे अहम् अव अवश्यं विजयी भविष्यामि इति किम् अभवत् अत्र चषकः कृत्वा पुनः पुनः एकवारं धावनक्रीडां करोति कर्वा हा? किमर्थं करवाव तत् आवाम् इति अस्ति खलु अहम् आवां वयं वीटु पुनः एकवारं धावन् क्रीडां करवामः अधुना अस्मिन् अवसरे किं वदति शशक अवसरे अहम् अवश्यं विजयी भविष्यामि अधुना अहमेव विजयी भविष्यामि तदा तदा किम् अभवत् अहं सुप्ता अतः भवान् एव विजयं प्राप्नुवान् परन्तु अधुना पुनः एकवारं धावनक्रीडायाः आरम्भं कुर्मः अहं विजयी भविष्यामि इति हा अग्रिमे अपि पठतु कच्छपः कच्छपः प्रस्तावम् अङ्गीकृतवान् निश्चितं mm. समयः अपि निर्धारितः धावनं mm -hmm. प्रारब्धम् अभो अपि स्वसामर्थानुगुणं धावनं स्वसा प्रारब्ध प्रारब्धवन्तौ अस्मिन् अवसरे दृढसङ्कल्पः शशकः कुत्रा कुत्रापि न अतः अचिरात् एव स्वगृहं प्राप्य तथैव तत्रैव कच, कच्छपस्य कच्छ प्रतीक्षाम् अकरोत् कच, कच्छपः अपि निजशक् सक, तावित्वा धावित्वा महता विलम्बेन लक्स् लक्ष्य स्थलं प्राप्नोत् अधुना किम् अभवत् कच्छपः प्रस्तावम् अङ्गि स्वीकरोति उत्तमं स्वीकृतवान् दिनं निश्चितं समयः अपि निर्धारितः धन् धावनं प्रारब्धम् स्टार्टेड् दनिङ्ग् अपो अपि स्वसामर्थ्यानुगुणम् न जानामि स्वसामर्थ्य अनुगुणं कपेसिटि यथाशक्ति वयं वदामः खलु यथाशक्ति यथामति Mm -hmm. स्वसामर्थ्य mm -hmm. अनुगुणं धावनं तदा किम् अभवत् अस्मिन् अवसरे दृढसङ्कल्पः दृढसङ्कल्पे विश, विश्रामत इत्युक्ते सः प्रथमवारे किम् अभवत् चषकः सुप्ता सुप्तः अधुना कुत्रापि व्यश्राम्यत इत्युक्ते तत्र कुत्रापि सः विश्रान्तिं न स्वीकृतवान् इति बिना अवधानं सह धावितवान् अतः किम् अभवत् अचिरात् अचिरात् एव स्वगृहं प्राप्य तथैव अतः अचिरात् अचिरात् इत्युक्ते शिघ्रं शिघरमेव विना विलम्ब विना विलम्ब विदौट् गृह स्वगृहं प्राप्य तथैव कच्छपस्य प्रतीक्षाम् अकरोत् स्वगृहं स्वगृहं ते तत्रैव कच्छपस्य प्रतीक्षाम् अकरोत् इत्युक्ते सः उपवनं प्राप्तवान् शीघ्रमेव सः गच्छ् गतवान् कच्छपस्य प्रतीक्षा अधुना कच्छपः तत्र नास्ति कच्छपस्य प्रतीक्षां स्ट्राटिक् वैटिङ्ग् फॉर कच्छपः कच्छपः अपि निजशक्त्या धावित्वा महता विलम्बेन लक्षस्थलं प्राप्तम् इत्युक्ते निजशक्त्या एस् पर् हिस् एबिलिटी सः तत्र आगतवान् कः विजयी कः विजयी आसीत् अधुना विजयी ओके अस्तु प्रथमं वारे प्रथमं वारं तत्र किम् अभवत् शशकः सुप्ता अतः तत्र कच्छपः विजयी वारं द्वितीयवारे किम् अभवत् तत्र विना विना विना विलम्ब शशकः उपवनम् गतवान कच्छपः तत्र विलम्बेन स्वसामर्थ्या निजसत्या सः अपि धावितवान परन्तु तस्य सामर्थ्यम् अधिकं नास्ति कुर्म इति अतः सः विलम्बेन तत्र लक्ष्यस्थलं प्राप्नोत् इति प्राप्नुवान् इति अधुना द्वितीयबोधः कः एकवारं पठतु भवान् अहं तत्र स्पष्टीकरणं ददामि दृढसङ्कल्पशक्तिः अद्य अव्यवसाये निरन्तरन्तर्यं पूर्णरूपेण निजसमर्थानुगुणं कार्यनिर्वहणम् इता इत्यादिकं सर्वम् अस्ति चेत् यः कोऽपि समुचिन्तां सफल् सफलतां प्राप्तुम् अर्हति इति एतस्मात् ज्ञायते ननु अत्रापि पश्यन्तु ननु इति अव्ययरूपेण दृढसङ्कल्प आम् दृढसङ्कल्पशक्तिः अध्यवसाये नैर नैरन्तर्यं निरन्तरता इच्छाशक्ति दृढसङ्कल्पशक्ति पूर्णरूपेण निजसामर्थ्यानुगुणं कार्यनिर्वहणम् अबिलिटि टु वर्क् एस् पर् ओन् कपासिटि मेकिङ्ग् यूस् आफ् ओन ओन् कपासिटि टु द फुलेस्ट् इत्यादिकं सर्वम् अस्ति चेत् यः कोऽपि समुचितां सफलतां प्राप्तुम् अर्हति एवं सर्वम् अस्ति चेत् सफलतां निश्चयेन प्राप्नोति इति बोधः इति एतस्मात् ज्ञायते अस्तु एतावत्पर्यन्तं द्वितीयः भागः तत्र शशकः विना विलम्बेन निद्रां न कृत्वा मध्ये तत्र साध्यं प्राप्तवान् विजयी अभवत् विजयी अभवत् अभवत। अग्रिमे गच्छामः अस्तु धन्यवाद महोदय अग्रिमे जयन्तीभगिनी पठति वा पुनः कतिपयदिनानि तत् आरभ्यः कतिपयदिनानि गतानि एकदा कच्छपः शशकम् अगतय अकथयत् भ्रातः शशक शा, भ्रातः शशकः चल पुनरेकवारं धावनं करवाव किन्तु अस्मिन् अवसरे लक्ष्यस्थलं भवतु मम पुरातनं गृहम् यच्च तव गृहनिकटस्थायाः नद्याः अपर अपरपार्श्वे अस्ति इति कति mm. mm. दिन कति दिनानि अनन्तरम् पुनः एकवारम् कच्छपः शशकम् उद्दिश्य कथय अकथयत् पुनरेकवारम् आवां धावनकार्यं करव इति किन्तु अस्मिन् अवसरे अस्मिन् समये लक्ष्यस्थलं भवतु मम पुर पुरातनं गृहं कश्यपः वदन्ति मम एव लक्ष्यस्थलं भवतु इति गृहनिकटस्थायाः नद्याः अपरपार्श्वे नदी नद्यां पार्श्वे अधुना अधुना किं भवति तस्य लक्ष्यं भिन्नम् अधुना उपवनमिति लक्ष्यं मास्तु कच्छपः कच्छपः कच्छपस्य एव प्रस्तावः अत्र तव गृहनिकटस्थायाः नद्याः अप्परपार्श्वे अपरतीरे इत्युक्ते उपवनमस्ति उपवनम् hmm. समीपे तत्र नदी अस्ति तन्नदी अपरपात्रे अपरतीरे अदर् सैड् आफ़् देट् रिवर् अदर्तर् बेक् अपर इत्युक्ते इत्युक्ते अधुना लक्ष नदी लक्ष hmm. लक्षमार्गे मार्गे, मार्गे तत्र नदी अस्ति इति स्थिति पश्यन्तु अत्र कष्टवस्य चिन्तनं पश्यतु मार्गे नदी भवेत् तत्र कर्तुं न शक्यते शशकः अविचार्य कच्छपस्य प्रस्तावम् अङ्गीकृतवान् दिनं निश्चितम् समयः निर्धारितः समुचिते समये धावनं प्राप्तम् अविचारं विचारं विना शशकः अङ्गीकृतवान् तस्य कशपस्य प्रस्तावम् अङ्गीकृतवान् तस्य दिनमपि कस्य दिने योद्धं ऐ मीन् योध योधनकार्यम् आरम्भं इति दिनमपि समयः अपि धावनकार्यं प्राप्तं प्राप्तम् प्रारश्य अहत्पूर्ण विषयक भगिनी अविचार्युक् शशक सामर्थ विषयक ज्ञानमस्ती यदा मे साम्यम तो अस् अहम सामर्थ्यवा अस् पर लक्ष्यम कि चिंतनमेव नद्या अपरपाशे मध्य नदी अस्थी परंतु संगीक सः स्वीकृतवान् अहो अस्तु अहं सज्जा अस्मि अहं तु धाव मम धावनं कौशल्यं धावने तु मम कौशल्यम् अस्ति एव इति चिन्तनम् अधुना एतावत्पर्यन्तं पठतु शशकः तत्र शशकः धृतगत्या धावित्वा नद्याः तीरं प्राप्तवान् शशकः शीघ्रं शीघ्रं धावित्वा नद्याः तीरं प्राप्तवान् अनन्तरं तस्य मनसि विचारः आगतः अहो सारि सारि बेनि ए क्लैन् ऐ मीन् किन्तु तत्र गमनस्य अनन्तरं तस्य मनसि विचारः आगतः इदानीम् एव शशकः चिन्तितवान् तस्य मनसि विचारः उत्पन्नः अहो अहम् अविचार्य भक्षपस्य प्रस्ताव प्रस्तावमिवनम् अङ्गीकृतवान् अहं तु नदीम् धरितुं न शक्नोमि अहम् वञ्चितो अस्मि पराजितो अस्मि इति शशकः चिन्तितवान् इदानीम् एव शशकः चिन्तितवान् अहम् अहम् विचारं विना विचारं विना कच्छपस्य प्रस्तावम् अङ्गीकृतवान् अहो अहं नदीं धरितुं न न शक्नोमि अहम् अञ्चितवान् अस्मि अहं पराजितो अस्मि इति शशकः चिन्तितवान् उक्तवान् मनसि मनसि चिन्तितवान् अत्र चित्रमपि पश्यन्तु सर्वे तत्र तीरं तु प्राप्नुवान् तत्र शीघ्रतया सः धावितवान् तत्र नद्याः तीरं तु प्राप्नुवान् सः प्राप्तवान् तत्र तीरं परन्तु तीरे किम् तरणं तु न जाति सः नदीं तरितुं न शक्नोमि परन्तु कच्छपः पश्यन्तु तत्र नद्यां कच्छपः अस्ति परन्तु चषकः तत्र तीरे एव तिष्ठति अस्तु अधुना हा एवं प्रश् पठतु सः बहुधा तत् द्वित्रा तत्र सः बहुधा तत् सः अकरोत् किन्तु तावता कच्छपः <laughs> तु तीरं प्राप्य सुखेन mm. नदीं नीत्वा लक्ष्यस्थलं प्राप्तवान् आसीत् पुनः ततः प्रयत् पुनः ततः प्रत्यावृत्य Uh, mm, शशक सांत्व सान्त्व शा, सान्त्व सान्त्वनवचानानि उक्त्वा mm -hmm. सान्त्ववचनानि उक्त्वा नदीयं दुःखं नदीयं दुःखम् अजयत् तदीयं दुःखम् असमयत् सः mm -hmm. बहुधा विलम्बेन अकरोत् सः बहुधा विलम्बेन अकरोत् किन्तु तावता कच्छपः धीरं प्राप्य सुखेन नदीं तीर् तीर्त्वा लक्ष्यस्थलं प्राप्तवान् आसीत् बहुधा कच्छपः mm. विलम्बेन आगतवान् खलु किन्तु तत्र विल विलपनं भगिनी तत्र विलपनम् अकरोत् इत्युक्ते अहं वञ्चितः अहं पराजितः अहम् अविचार्य प्रस्तावं स्वीकृतवान् मम एतत् सर्वत्र विलपनम् परन्तु विलापनं कृतवान् परन्तु तावता कच्छपः नदीं तीर्त्वा लक्ष्यस्थलं प्राप्तवान् आसीत् पुनः प्रत्यावृत्य शशकं सान्त्यव सान्त्यवचन सान्त्यनगवचनानि उक्त्वा सान्त्वनवचनानि सान्त्वनं समाधानवचनानि सान्त्वनवचनानि उक्त्वा तदीयं दुःख असमय सः किं तत्र सान्त्वनं तत्र ओ एवम् अभवत् खलु ओ ओ एवमेवं परन्तु सः एव चिन्तितवान् मार्गस्य निश्चितीकरणं कृतं कच्छपेन एव भव अस्त अस्त सांवन वचना अधुना बोधक निजसाथ्य सदुपयोग कु कथम कर्म शक्य विज्ञा सुचार्य कार्यनिर्वहणम कु अवश्य निजप्रचेष्टायां सफलः भवेत् इत्येषा नीतिः इतः आसाद्यते किञ्चित् दीर्घमस्ति परन्तु पश्यन्तु निजसामर्थ्य स्वस्य सामर्थ्य अहं जानामि अहं सामर्थ्यवान् जाना परन्तु अहं सामर्थ्यवती परन्तु कुत्र कुत्र मम सामर्थ्यस्य उपयोगः भवेत् सदुपयोग कुत्र कुत्र तस्य उद् उपयोगं भवितुमर्हति कुत्र न भवितुमर्हति इति विज्ञाय हेविङ्ग् mm. अण्डर्स्टुड् देट् सुविचार्य सम्यक् mm. चिन्तनं कृत्वा कार्यनिर्वहणम् इत्युक्ते कम्प्लीट् yeah. द टास्क् सः mm. अवश्यं निजप्रचेष्टया निजप्रचेष्टायाम् इत्युक्ते चेष्टायाम् mm. इत्युक्ते स्वस्य कार्यं mm. सफलः भवति कार्यसिद्धिः तस्य एव भवति यु शुड् नो युर् वीक्नेस् यू शुड् नो युवर् फ़ाल्स् एव एव्रिथिङ्ग् यू शुड् अण्डर्स्टाण्ड् इट् प्रापर्ली निजसामर्थ्यस्य सदुपयोगः करणम् ओके एवमस्ति अहं न कर्तुं शक् एवं मम तत् अहं न शक्नोमि एतत् सर्वं करोन् मम तत्र सामर्थ्यं मम नास्ति सम्यक् चिन्तनं भवेत् तदा एव सुयोग्यप्रकारेण कार्यनिर्वहणं भवेत् इति बोधः प्रथमः बोधः द्वितीयः बोधः तृतीयः बोधः अधुना अन्तिमः बोधः अस्तु धन्यवादः राधा भगिनी पठति वा दिनानुदिनम् आम् भगिनि दिनानुदिनं शशककच्छपयोः मित्रता दृढ अभवत् एकदा कच्छपः पुनः एकवारं धावनाय शशकम् निमन्त्रितवान् यक्षस्थलम् mm -hmm. च तस्य पुरातनगृहमेव भवेदित सः शशकम् स्पष्टतया विज्ञापितवान् mm -hmm. शशकः प्रस्तावमिमं न अङ्गीकृतवान् hmm. किन्तु कच्छपः तं बोधयित्वा अकथयत् प्रातः शशकः अस्मिन् अवसरे धावनम् आवां मिलित्वा करिष्यावः mm -hmm. मम गृहतः नदीं यावत् अहं तव पृष्ठे उपविश्य गमिष्यामि नदीमध्ये त्वं मम पृष्ठे उपविश एवम् आवां मिलित्वा समकालमेव लक्ष्यस्थलं प्राप्नुयाव इति एतावत् पर्यन्तं वदतु अनन्तरम् अग्रिमे पठतु दिनानुदिनं चषककच्छपयोः मित्रता दृढा अभवत् द्वयोः मध्ये मित्रता तु अभवत् एव तत्र मित्रता तु अस्ति तत्र विजयलक्ष्यप्राप्तिम् एवं सर्वम् अस्ति परन्तु मित्रता अपि अस्ति अस्ति अनन्तरम् अनन्तरम् एकदा कच्छपः पुनः धावनयाः निमन्त्रं शशक शशक पृच्छति लक्षस्य स्थलं तस्य पुरातनगृहमेव इति वदति कुत्र अस्ति पुरातनगृहं नद्याः अपरतीरे नद्या तत्र एव लक्ष्यम् इति सः वदति शशकं स्पष्टतया न अङ्गीकृतवान् mm. तत् शशकः मास्तु इति mm. वधितवान् yes. किन्तु कच्छप तस्य बोधितवान् अहम् एवं mm. करोमि अस्मिन् अवसरे मिलित्वा करोमि अहं मिलित्वा करिष्यामः करिष्यावः मम गृहतः नदी पर्यन्तम् अहं तस्य पृष्ठे उपविशामि नदीमध्ये भवान् मम पृष्ठे उपविश्य उपविशतु एवम् अहं मिलित्वा लक्षस्थानम् अहं गच्छामि इति वदितवान् इत्युक्ते इदानीं स्थिति का शश hmm. न इति वदति हा तत्र लक्ष्यस्य विषये न एतावत्पर्यन्तं सः शशकः स्वस्य सामर्थ्यविषयकज्ञानं तस्य अभवत् hmm. नद्यां तरणं मम सामर्थ्यं नास्ति इति सः यतोहि धावनवेगे अहं श्रेष्ठः परन्तु नद्याः तरणं मम सामर्थ्यं नास्ति मम सामर्थ्या सामर्थ्यानिधं मम सामर्थ्यस्य अधीनं नास्ति इति सः स्पष्टतया सः अङ्गीकृतवान् अतः सह, सह, सह प्रस्तावं न स्वीकरोमि इति परन्तु कच्छपः वदति अस्मिन् अवसरे किं करणीयं मिलित्वा धावनं करिष्यावः मम गृहतः नदीं यावत् अहं तव पृष्ठे उपविशामि नदीं यावत् यत् मार्गमस्ति तदा अहं तव पृष्ठे पश्यन्तु अत्र चित्रं तत्र चित्रमस्ति तत्र चित्रम, एकस्मिन् भागे शशकस्य उपरि कच्छपः हा मम गृहतः नदीं यावत् अहं तव पृष्ठे परन्तु नदीमध्ये किं कुर्मः त्वं मम पृष्ठे उपविश आवाम, आवाम् इत्युक्ते अहम् वयम् वीतु मिलित्वा समकालम् एव लक्ष्यस्थलम् प्राप्नुयावः अस्माकं लक्ष्यं समानम् तदा मिलित्वा एवम् प्रयत्नं कुर्मः लक्ष्यप्राप्तेः कृते आवाम् मिलित्वा प्रयत्नम् कुर्वः इति अनेन पठतु अनेन अनेन शशकः अतीव प्रसन्न अभवत्ते समये धावनम् प्रारब्धम् यत्र शशकस्य धावन धावनसामर्थ्यम् अधिकं तत्र कच्छपः शशकस्य सहायेन लक्ष्यं प्रति अधावत् mm. जलभागे यत्र कच्छपस्य तरणसामर्थ्यम् अधिकं तत्र शशकः कच्छपस्य सहायेन नदीम् तीर्त्वा mm. तदेव लक्ष्यस्थलम् प्राप्नोत् यच्च तस्य कृते असम्भवम् असम्भवम् आसीत् किमुक्तमस्ति अत्र अनेन शशकः ते प्रसन्न अभवत् कश्यपस्य प्रस्थानम् अङ्गीकृतवान् समयं धावनस्य समयं निर्धारितवान् प्रारब्ध प्रारब्धं कृतवान् स्थलभागे यत्र कच्छपस्य धावनसामर्थ्यमासीत् तत्र कच्छप शशकस्य पृष्ठभागे उत्थिश उत्थाय गतवान. उपविष्टवान. उपविष्टवान. तस्य सहायेन लक्ष्यप्राप्तं कृतवान् जलभागे uh -huh. uh, कच्छपस्य uh, सामर्थेन, uh, शशक uh -huh. uh, कच्छपस्य uh, पृष्ठे उपविष्टाय नदी तीर्त्वा तीर्त्वा लक्षस्था लक्ष्य प्राप् प्राप्नुवान् अधुना अधुना किम् अभवत् भूभागे भूमं शशकस्य अधिकं सामर्थ्यम् अतः तत्र कच्छपः तस्य पृष्ठ उपरि उपविष्टवान् लक्ष्यम् प्रति अधावत् अनन्तरम् जलभागे किम् अभवत् जलभागे कच्छपस्य तरणसामर्थ्यमधिकम् शशकः तु तरितुं न शक्नोति अतः शशकः तत्र कश्यपस्य पृष्ठे उपविश्य तेन साहाय्येन नदी नद्याः कृत्वा लक्ष्यस्थलम् प्नुवान् अतः तस्य कृते असम्भवम् यत् अस्ति तरणम् शशकस्य कृते असंभवं परन्तु तत् सम्भवम् तस्य सम्भवः कदा भवति कच्छपस्य साहाय्येन एकमेकायाम् साहाय्यम् कृत्वा एवम् परस्परम् साहाय्यम् अवलम्ब्य य लक्ष्यप्राप्तये यत्नः क्रिये असम्भवमपि सम्भवताम् आप्नोति यत् असम्भवम् अस्ति शशकस्य कृते तरणम् असम्भवम् कच्छपस्य कृते भूमौ उपरि चलनम् वा धावनम् अशक्यमेव परन्तु द्वयोः मिलित्वा यत् कार्यम् अभवत् तत् द्वयोः कृते अपि सफलताम् प्रति द्वयोः अपि गमनम् सफलताम् प्रति अभवम् परस्परसहकार्येण यत्नः कृतः द्वयोः मुलित्वा यत्नः कृतः तेन किम् अभवत् कठिनम् कार्यमपि सरलीकृतम् सरलतया अभवत् इति बोध hmm. बोधवाक्यम् किम् परस्परं साहाय्यम् अवलम्ब्य लक्ष्यप्राप्तये यत्नः क्रियेत् प्रयत्नः क्रियेत् परिश्रमः क्रिये, क्रिये, क्रिये चेत् असम्भवम् यत् अशक्यम् दृश्यते तदपि शक्यम् भवति सम्भवताम् आप्नोति सम्भवताम् प्राप्नोति तथैव अस्माकम् लक्ष्यमस्ति संस्कृत तत् दृष्ट्वा तत् ओ संस्कृतभाषा अतीवकठिना कथम् अहं करिष्यामि परन्तु परस्परं परस्परसहकार्येण यदा वयं सहकारेण यदा वयं कुर्मः तदा अस्माकं लक्ष्यप्राप्ति निश्चयेन भविष्यति hmm. एवं खलु सत्यं खलु अधुना भवन्तः एकम एकम वदन्तु कथाया विषये त्रीणि वाक्यानि वदामि बेनि त्रीणि वाक्यानि कथायाः विषये वदामि यत्किमपि कार्यं निरन्तरं प्रयत्नं कुर्मः चेत् निश्चयेन विजयं प्राप्नुमः स्वस्य उपरि स्वस्य सामर्थ्यस्य उपरि विश्वासं कुर्मः परन्तु अतीव अतीव वा न मूढतया विश्वासं न भवेत् प्रतियोगी अनुसारेण एव अस्माकं सामर्थ्यं भवेत् भगत भगवतः सृष्ट्या व्यक्ति वा प्राणी परस्परं सहायेन जीवितुं शक्यते न स्वयम् आम् hmm. आम् um, um, hmm. सत्यं सत्यं hmm. बहु बहु बहु सम्यक् बहु सम्यक् एवं परस्परसहाय hmm. कार्येण एव अस्माकं जीवनम् उत्तमतया जीवनं मूल्यवर्धनं भवति तेन हा तत्र अहम् एव जीवामि इति भावनया तु केचन जनाः जीवन्ति परन्तु मूल्यवर्धनं जीवनस्य मूल्यवर्धनं तदा एव भवति बहु सम्यक् दन्यो अग्रिमे के के वदन्ति अधुना वीणाभगिनी वक्तुं न शक्नोति सा उक्तवती हा राधा हां वदतु वदतु हा अहं कदापि प्रतिस्पर्धिं निर्बलम् इति न चिन्तयेत् न भगिनि चिन्तयामि अहं न चिन्तयामि हा सः अपि बलवान् अस्ति मम समीपे एव सामर्थ्यमस्ति इति न सत्यं योग्यं योग्य प्रयत्नं कवि न <laughs> त्यजामि न त्यजामि निरन्तरतया प्रयत्नं करोमि इति निरन्तरं योग्यं योग्यं बहु सम्यक् भारतमहोदय वदति वा सर्वस्य सामर्थ्यं भिन्नः योग्य सर्व एकत्र अस्तु Hmm. करोतु, ah. प्राप्नोति आम् ah, आम् ah, ah, बहु सम्यक् उत्तमः विचार्य तस्य सामर्थ्यं सर्वेषां प्रति समीपे सामर्थ्यं तु अस्ति परन्तु तद् भिन्नमस्ति एव्रिबडी हेज़् इवन् डिफ्रेण्ट् अबिलिटीस् परन्तु मिलित्वा यदि कार्यं कुर्मः चेत् निश्चयेन सफलतां वयं प्राप्नुमः योग्यं बहु राधा भगिनी रमा भगिनी श्यामला भगिनी वदति वार्क् सत्यं परन्तु तत्र परिश्रमं सम्यक विचारेण भवेत् अविचार्य कार्यं न करणीयं सम्यक् विचारेण तस्य आधारेण परिश्रमस्य महती इति योग्यं योग्यं राधाभगिनी रमा भगिनी अस्तु रमाभगिनी राधाभगिनी वदतु एकमेकम् अस्तु तु, तु, प्लस् मैनर् जानीमः चेत् आम् इत्युक्ते कुत्र दुर्बलता दुर्बलतायाः विषये अपि चिन्तनं भवेत् स्वस्य सामर्थ्यस्य सम्यक् चिन्तनं भवेत् हा अस्तु मम समीपे इति मम तत् सामर्थ्यं नास्ति एतत् सर्वं कथमहं करोमि न कस्यापि तस्य आधाररूपेण आधारस्य आवश्यकता अस्ति अत्र तत् स्वीकरोतु इति सामर्थ्यस्य सम्यक् विचारः अस्तु योग्यं योग्यं राधाभगिनी अन्तिमं You know, it would be smart to take help where uh, where you mm. when you need Satyam. it to achieve your goal um um sarvam karyam karomi iti na cintaya no no no no um prathama eh uh, sahayam sahayam um taking help yeah sahayam um anyasam um. sahayam avashyakam yada yada anyasam sahayasya sahakaryasya avashyakata तत्र उपद्यते तदा तस्य आवश्यकताम् इति अहमेव करोमि इति अहङ्कार मास्तु इति योग्यं योग्यम् अस्तु तद् सर्वेषां सम्यक्रीत्या अवगमनम् अभवत् मम सन्तोषः अस्तु अधुना वयं स्थगयामः समापयामः अग्रिमे बुधवासरे मेलिष्यामः सर्वेषां धन्यवादाः धन्यवादः भगिनी शान्तिमन्त्रम् नाम शान्तिमन्त्रम् नाः क्षम्यताम् भवती एव वदतु अहं श्रुतवती भवती वदति वा कृपया सर्वेषाम् स्वस्तेर्भवतु सर्वेषाम् शान्तेर्भवतु सर्वेषाम् पूर्णम् भवतु सर्वेषाम् मङ्गलम् भवतु सर्वे भवन्तु सुखिनः सर्वे संतु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः शान्ति ॐ सर्वं श्रीकृष्णार्पणमस्तु शुभमस्तु धन्यवादनि धन्यवादाः धन्यवादाः